आदित्यभ्यो भवद्वद्भ्यस्वरम् दर्ववेद्भूतिकामादित्यावादेलम्भोत्रे प्रतिनदम् देवोरम्भूत्रे सम्भोजन्न प्राप्नोत्यादित्यानेव भवद्वदस्वेन भागधेदेनोपथापदितदेवैनम् भूलिङ्गमयन्ति भवत्येव रुध्यो वा वरुध्यमानो वादित्र्या वा अपरोद्धार आदित्या अवगमयितार आदित्या नवधार यद्वदस्वयनः गेदेनवधावजित देवैनं विशिदा आध्यत्यनप्य भवत्य स्य पदमादीतिवास्मे राज्यमनुमन्यते सत्याशेत्याः सत्यामेवाशङ्कुरहरित्याह प्रजालेवास्मि समनसः परोग्यप्रयतमरुदस्तुदानवदेना विष्पतिनाभ्यमगुङ्गाजानमित्याहमालदेवैवे ज्येष्ठैन गो राष्ट्रेण समर्थयः परस्ता ्राम्यवायी स्या तस्य गृहाद्हरेत् शुक्लागिश्च कृष्णागिश्च विषनुजाद्ये शुक्लास्यस्तमादित्यं चरुन् नवेदादित्या वै जयदजाविषमेवावगच्छत्यवगतास्य विनवगतगं राष्ट्रमित्या हरुजय कृष्णास्य स्तं वारुणं चरुन् राष्ट्रमुभे एव विषं च राष्ट्रं गच्छेलिमहमादित्येभ्यो भागं निर्वपाम्यामुष्माधमुष्टि विशोभगं दोरिति नर्वपेनादित्यादेवैनं भागधेदं रेप्सन्दो विषमवगमजं दिगदिनाभगच्छेदास्मद्धान्मलुखान् सप्तमध्यमेधायामुपहन्यादिदमहमादित्यान् वध्वाम्यामुष्मा दमुष्टे विशोभगं दोरित्यादित्यादेवैनं बद्धवे त्याश्व भवन्ति मरुताम्बदेतदो यदश्वत्सभोजस एव विषमवगच्छति सप्त भवन्ति सप्तगणा वै मरुतो गणसदेव विषमवगच्छति देवा वै मृत्योरविभजश्चे प्रजापतिमुपाधाभन्ते भजेतां राजावत्यागं शतकृष्णला निरवभक्त देवैश्वरमलधाद्योजा तस्मादेतां राजावत्यागं शतकृष्णलान्नपे प्रजापतिमेव स्वेन सदेवास्मिन्नायुर्दधाति सर्वमायुरेदि शत कृष्णलाभवत् सदा जरुषे युश्चेन्द्रिजे प्रतिष्ठति घृते भवे घृतमृतगं हिरण्यमायुश्चैवास्मा अमृतम् च समे चे तथा चतुरभक्तस्याजे कथा ब्रह्मणमुपहरद्वै सन आयुर्दधात्यसामादित्योनं यरोचत तस्मै देवाष्वारश्चित्यमेच्छन्दस्मारेतगुं सौर्यं च रं न ैवास्मिन्तु चमदधरुजो ब्रह्मवर्त्य सकाभस्यादित्यज्ञस्वेन भागफेदेनोपधापदि सदेवास्मिन् ब्रह्मवर्चादि ब्रह्मवर्चस्येव भवतु भयतो रुक्मौ भवत उभयतदेवास्मिन्नुचं दधादि प्रयाजे प्रयाजे कृष्णरञ्जुहोदिग्भदेवास्मि ब्रह्मवर्च समवरु ेजमष्टागपालं निर्भवेत् सा वित्रं वादशकपालं भौं ने शरण्यः कामय धैरण्यं यन्दे धिरण्यं मोपनमे भवत्यां वै हिरण्यस्यैव हिरण्यं नै वैनन्दते सा वित्रो भवति सविदृग्रसूतये वैनृन्दते भौम् ने शरुर्भवत्यस्या मे हिरण्यं नमधिमाय ं त्रिजेण वीर्येण धेजो हिरण्यं विन्दत चेतामेव निर्वपे हिरण्यं विद्वानेन त्रिजेन वीर्येण यद्धत चेतामेव निर्वपेब्जस्व हिरण्यं नश्वेब्जलाग्नेजो भवत्याेदं वै हिरण्यं यस्यैव हिरण्यं तेनैवेन द्विन्दति सा मित्रो भवति स पितृप्रसूतदेवेन द्विन्दति भोम्ने चतुरुर्भवत्यस्यां वा ेषामे प्रजापरिमवाधास्मादेश्यामाकं चरण्यमैवास्मिन्नन्द्रिवादेशं न झतेजसोमं वमिगस्तोम वामे स्यात्तस्मादेतगुं सौमेनमागं च नृपेत् सोमं चैवस्मे न भाकथे जय नोपथावधि यावेवास्मिन् समपेथं सत्तोनेन्द्रिजेण रुन्धे श्यामादो भवत्य साक्षादेवरुन्धे नरे धात्रे पुरोणा समष्ट्राकपालं निर्ववेन्द्रायात्रे पुरोणा न्धे पञ्चगृहीतं भवति पान्ता हि पशव बहुरूपं भवति बहु रोपा हि पशवः समध्ये प्राजापत्यं भवति प्राजापत्या वै पशवः प्रजापतिरेवास्मि पशुवान् पसम आत्मानमेव मृत्योन् निष्क्रेयपशो न वरुन्धे पशुङ्त्यात्मा वै पुरुषस्य मधुजन्मध्वग्नौ जहोत्यात्मानमेव दन्धमानोग्नौ कृतधानि पञ्चौ यार्जानुवाक्य भवदः पाङ्गः पुरुषः पाङ्गाः पसम आत्मानमेव मृत्योन् देवा वै सत्रमासध्यपरिमिदैयशस्कामास्तेषागुंसौ मगुं राजामग्निरमो दयेत्रावग्नेशभवताष्टामिन्द्रो यज्ञभ्रष्टोऽपदे वब्रवेद्याजय तं मेदस्मादेतामिष्टम्बिरमपदामान्मेदमष्टागपालमैन्द्रमेकादश गालकं सौम्यं चरुं तरे वा जम् ब्रह्मवर्च समधत्ताय यज्ञविभ्रष्टश्चात्तस्मादेतामिष्टिन्यपमेना ज्ञेयमष्टाकपालमैन्द्रमेकादशकपालगं सौम्यञ्चल ज्ञेजो भवति तेजदेव स्मन्देन तथा दिलतैन्द्रो भवतीन्द्रियमेव स्मृन्देन तथा दिलत् सौम्यो ब्रह्मवर्च सन्देनाः ज्ञेयस्य च सौम्यस्य च इन्द्रिय समाश्लेष तेजश्चैवास्तिन् ब्रह्मवर्च समीचीनेषो मेदमेकादशकपालं निर्ववेद्यकामानोपनमेधाग्ने मेब्याह्मणस्सोमं पिमति स्वामेवै न समर्थयज वै नङ्कामानमध्यग्नेशो मे नमष्टाकपालं नर्वमे ब्रह्मवर्तस कामोऽग्नेशो मा वे स्वेन भागधेनोता वेवास्मिन् ब्रह्मवज सम्भत्तो ब्रह्मवज्रस्येव भवति यदष्टागवावस्तेनाो यत् श्यामाकस्त्वेन सौम्यसमृद्धि सोमायवाजिनेः श्यामाकं ेव वाचिनग्रस्वे न फागे लोपधावत् स देवास्मिन् वेदो वाचिनं दधा जनग्वेवो भवति ब्राह्मणस्पत्यमेकादिशगपादं निर्पवे ग्रामगामो ब्रह्मणस्पतिमेव नभागे देनोपधावति सदेवास्मि प्रयच्छति ग्रामेव भवति गणपति राज्यानुवाद्य भवद स जाते रेवैनं घनपन्दं गोत्रेता द्यः कामजेत ब्रह्मन् विसं विनाशय जमिति मारुवाक्य कुर्यात् हर्यं ने शरं नर्वभेत् सुवर्गकामोऽसौ वा आदित्यो यमार्यमणमेव स्वेन भाग दैनोपथामत् सजैवैनगं सुवर्गं लव गङ्गमयत्यर्यं ने शरं नर्व वैद्यः कामय ददानकामामे प्रजा सुरत्यसौ वा आदित्यो यमायः खलु मै ददादिशोर्यमार्यमणमेव स्वेनभाग दैनोपथावत् सदेवास्मै दानका मा प्रजाः करोभिधानकामास्मे प्रजा भवन्तर्यं नेशं नर्मः कामरेद स्वस्त्रि जगमिषदेन्द्रो वै देवानामानुजाम तस्माचेदमैन्द्रमानुशोकमेकादशगमानम् निरपमत्येनैवैनमग्रम् देवतानाम् पर्यणयद्बुद्धवती अग्रवती राज्यानुवाक्ये तस्मादेतपेन्द्रमानशोकमेकादशकमाधन्य समानानां परिणयति बुद्धवती अग्रवती भवतो बुद्ध्वा देवैनमग्रं परिणयज्ञानशोको भवतानुजाभरस्य ृहस्पत्य मानुशोकं चलं नर्मे गृहस्वतिमेव स्वेन भागे नापथापति स देवै नमग्रगम् समानाभाणयति दे बुद्धवती अग्रवतीराजानुवाक्ये भवतो बुद्धिना देवै नमगृहम् परिणयत्यानुशोको भवत्येषाख्ये तस्य देवतायहानुजावरः दे समृद्ध्यै य स्त्रैस्त्रिगं सद् आसन्दा सोमाजराज्ञे ददात् तासागं रोहिणे उपयेत्तादेष्यन्ते पुनरगच्छन्ता अन्वयेत्ताः पुनरयाच ता अस्मै न पुनर्ददात् ञलक्ष्मःलक्ष्म आज्जाय लक्ष्मस्य जन्म जापेदानभवत्तत्पालक्ष्मज्जायाभ्यो विन्दत्तज्जायन्यस्तृज देवमेतेषाञ लक्ष्माणां जन्मवेदनैनमेते विन्दं द्वि सजेता एव नवस्युपाधा वत्ता अभ्रुवम्बरं वृणामहे समा वत्स देव न उपाजगिति तस्मादेतमादित्यं चरुण्रपंसेनैवैनं वापात् श्रामादमं च निजः पापलक्ष्म गृहे तस्यात् तस्मादेतमादित्यं चरुण्दादित्या नैवस्येनोपधापधितदेवैनं मुमेवै न माप्यायमानमन्वाप्याय नवो नव भवति जायमान इति पुरोनवाद्या भवत्यायुलेवा स्कन्दया दधादित्यां सुमाहात्याजगन्ते याच्यैवै नेतयाप्याययति प्रजापदेवेभ्योन्नाद्यम् जातिषत्सोद्यमान् लोका भ्यत्यरिक्षत रघु राजानमिन्द्रमधिराजमिन्द्रव्य स्वराजानन्दतो वैशदिमान् लोकास्ते धातु हस्तत्रिधातोः नादस्यादिति तस्मा एतं त्रिधातुम् नर्म वेदिन्द्रान् पुराशमेकादशगवानमिन्द्राजाधिराजा यस्वरा ज्ञेयं वाविन्द्रो राजानमिन्द्रोज राजोसाविन्द्रस्वराणि मानेपलोकान् स्वेन फागय धेनोपथामजदेव स्वा अन्नं प्रगच्छन्दं नादेव भवति यथा वसेन प्रताङ्गान् दुहदेवमेवे यः पुरोणाशा भवन् जत्र यधि मे लोका येषाम् लोकानामाच्च उत्तरवोत्तरोर्जाया भवद्देवमिवी मे लोकाः समृद्धै सर्वेषामभिगमयन्नवद्यत्र सम्वत्कालम् यत्रा समन्वाया देवासुरास्य पराजज्ञाना असुराणः ैश्वमुपागन्तेभ्ययन्द्रियं वीर्यपाहाक्र मत्तदिन्द्रोजा यत्पदं वपाहाक्र मत्तदवरुधन्नाशग्नोत्तदस्मादभ्यर्भो च रत्स प्रजापदिमुपाधा वक्तमेतजा सर्वभृष्ठया या जगत्तदेवास्मिन्नन्द्रियं वीर्यदधाद्वयं गृजकामो वीर्यकामस्यात्तमेतजा सर्वभृष्ठया या जेता एव धावलिता देवास्मिन् द्रियं वेल्यं दधति गन्द्राथं बलानि नर्भवधिकदेवावरे स्यते दस्तदेवावरुं जय गीं द्राजवैरूपा जगदेव सविदुस्ते दस्तदेवावरुं जय जीं द्राजवै राजा जगदेवधातुस्ते जस्तदेवावरुं जयगदिन्द्राजसात्वरा जगदेव अरुतान्ते दस्तदेवावरुं जयगीं राजवैभता जगदेव बृहस्वधेस्ते जस्तदेवावरुं जयेतावन्दि वै जयजागुंसितान् देवावरुं भुत्थानेषु गाल स्वधश्रगजयात द्वादशकपालः करोणाशोभट श्वरे वत्वादि समन्दमेवेन्द्रियम् वेलैमाने तथा दिं जत्या समन्वानन्दाहायास्वर्षभो वृष्णुर्वस्तस्सा दक्षिणामृषत्वा जताभिषस्यमानदेताश्चेद्वा अस्य देवता अन्नमदन्त्यजन्त्युवेवास्य मनुष्याः रजना वै कौणे न क्रदुजितं चानकिं चक्षुर्वन्यमया तस्मादे रामिष्ठं निरवदग्नदे भ्राजस्वदे पुरोडाचमष्टाकबालकं शौर्यं ग्न्याजस्व नैव लोडाचमष्टागपालमग्नेर्वै चक्षुषा मनुष्याभिपश्यं द्वि सौर्यस्य देवा अग्निं चैव सौर्यं च स्वेन भागधेनोपधावधि तावैवास्मिन् चक्षुर्धत्तश्चक्षुष्मानेव भवति गदाग् भवतश्चक्षुषे एवास्मिन् तत्प्रतिदधाति यत्सौर्यो नासिकान्ते नाखिरौर्यमाहाग्ने भवतस्तस्मादधितो नासिकां चक्षुषे तस तस्मान् नासि गजा चक्षुषे विधृते शमाणीतानुभाग्य भवनस्य चक्षुः समृद्ध्या उदित्यं देवानामुदघादने गमिपिण्डान् प्रयच्छति चक्षुरे वा स्म प्रयच्छति यदेवदः स ध्रुव से ध्रुवाहगौ सजादेश भोजा सं धीरश्चेत्तापसविध्रुव से ध्रुवाहगौ सजादेश भोजा समुग्रश्चेत्तापसविध्रुवसि ध्रुवाहगौ सजातेष भोजा समभिभोश्चेत्तापसवितामनमस्यामनस्तवे मादे सजाताः कुमारास्समनसस्तानहङ्कामने सजाते मां कामयन्तां हृदातान् महामनसकृति हस्यामनस्तदेवायास्त्रज स मनसस्ता अहङ्कामने हृदा ता माङ्कामयन्ता गुं हृदा ता मामनसः स्वदेवा वै स जाता विश्वामेवेन पाके देनोपथामदितदेवास्मै स जातान् वयच्छन् दिग्राण्येव भवति साङ्ग्रहणे भवति मनोग्रहणं वै सङ्ग्रहणं मन एव स जाताना ग्रन्थादिध्रुवासि ध्रुवाहवंस जाते परिचेन् परिदथाशिषमेवैदामाशास्त्यथो एतदेव सर्वगुं सजाते ृथिभवदयस्यैवम् विदुष जयते परिधयः परिधीयम् धावनमस्यामनस्य देभा इति ति तिस्र आहुजयजः एतावन्तम् दोवे स जाताय महान्तो ये क्षुल्लकायाश्रियस्तानेवावनुम्भे नमवनुभ्यामुपतिष्ठन्ते यन्न मय कन्नवनेतमभवज्ञद सत्पत्तत्सत्विनभवज्ञदध्यज ददािनोः प्राणोदस्य ते दत्ताययोः प्राणो स्वाहेन्द्रस्य प्राणो सिदस्य धारा अमृतस्य बन्धामिन्द्रेण दत्ताम् वेदाम् वरुद्भिः तदद्वाविष्टः परिजमस्यत्तत्वे रागव्यैरजत् पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्यो स्याजा वर्णसोमराजन्स्मादिदेशम् मगच्छाजरदष्टव्यथा सत् अग्निराजष्मान् स वनस्पतिभिरायुष्मान् द्वे नत्वा दुषायुष्मन्तम् करोमि सोमःष्मान् समृतेभिर्यज्ञः आयष्मान् सदक्षिणाभिर्ब्रह्मायष्मत्तम् फणैराजष्मद्देवायष्मन्तस्ते मृतेनराजष्मं तस्ते सुखराजष्मन्तस्तेनत्वादुषायुष्मन्तम् करोमि अग्निम् वा नेतस्य शरीरम् गच्छति सौ मधुरसौ वर्णदेन वरुणपासेन ग्रन्था तु सरस्वतीं वा गग्नाविष्णु आत्मा यस्य ज्यो गामयतिलोर्जोगामयामि स्याद्यो कामयतु सर्वमाजरजामिति तस्माजेतामिष्णिदाग्नेदमष्टागमालयम् सौम्यं चरुगुमारुणं दशकमालयम् सारस्वतम् चरुमाहाग्ना ैष्ठमेकादशमन्ये देवासरे श्रीनाथ सौभाेनैवैनं वरुणपाशान्व वाचं दधा यज्ञः सर्वा देवता विष्णुर्यज्ञो देवताभिश्चैवज्ञेन च भिषजक्षुतयधेता सद्भवति जीवत्येव जनमेतमभमैत्यामेवास्यैतं महिमानं जाचष्टेस्मिनो चैत्यास्मिनो वै देवानाक्षदौताभ्यामेवास्मि भेष न्दरोजेन्द्रस्य प्राणो सेद्याहेन्द्रियमेवास्मिन् वेदेन दधा य मित्रावर्णयोः प्राणो सेत्याः प्राणापानमेवास्मिन् वेदेन दधातिश्वेतां देवानां प्राणो सेत्याः भेदृजमेवास्मिन् नेदने जलस्य धानामृतस्य बन्थामिद्याह यथा यजुरेव पाममानेन त्वा स्तोमेनेत्याह प्राणमेवास्मिन्नेन दधा ज्ञवजोः स्वास्तोमेनेत्याहौजयेवास्मिन्नेन दधाद्यज्ञे स्वामात्रयेत्याहात्मानमेवास्मिन्नेदेन त्रित्विजः पर्याहर्यावन्दये त्वजस्तं भिं ब्रह्मणो हस्तमङ्गारभ्यवर्याहुरे कथैव्याजुर्वैक्षतमृतमृता देवायुर्निष्मति शतमानं भवति शतान्द्रिधानेन्द्रमाने समृद्ध्यायुषे वर्चेत्यावास्मिन् वर्चो तथा देव जरदष्ट्या हजरदष्टमेवरायुष्मानिभिहस्तम् गृह्णात्यै देवै देवाहायुष्मन्धस्तदेवास्मिन्नायुर्दधति सर्वमायुरेचे यावदर्वरुणायाश्वमनत्स स्वान्दवतामाच्छत्सवर्यदसदेतं वाकपालमवश्यत्तं निरवपत्ततो वै सवर्णपाशादमुच्यदवरुणोपालेतं ग्रन्थादिजोऽस्वं प्रतिगृह्णादि यावतो स्वाहान् प्रतिगृह्णीयात्तावतो वारुणान् च दुष्कपालान् नर्मे वरुणमे वस्त्व ैं वरुणपाशान्वञ्चति चतुष्कपाला भवन्ति चतुष्माध्यमृध्याये कमलरिक्तं न प्रतिग्राहे भवति तस्मादेव वरुणपाशान्मुच्यते यज्ञपरं निग्राहे स्यात् सौर्यमेकगपालमर्ववेदमुवारित्यमुच्चारं कुरुतेण ेववरुणमभज देवो हत्रीगञ्झरम्पुनरेभे रक्षितो निर्वा अश्वस्वा मे मे लिङ्गो लिङ्गमयति सजयनगु शान्त जा <Sessly> वामिन्द्रावरुणाय ेहेन्द्रेणापक्रामधिवरुणजैनं वरुणपाशेण गृह्णातिलः पा परागृहेतो भवतिलः वा परा गृहेतस्या तस्मादेतामहेन्द्रावरुणे पयस्यां दधे वास्मिन्नन्द्रयं दधाति वरुणजनं त्यात्मन्वन्दे पैलं करो चतुर्धाक्ष्मेहज दिग्भदेवास्मिभृजं करोधन् निष्कृन्दति तादृगे वामिन्द्रावरुणामग्नौ स्नामस्तं वा मेदयित्या हद ्रामस्तम्बामेनापयैतावदेशव उपजीवनीयास्तामेवास्मै वरुणपासान्वञ्चति सव्रत्नवर्ण्ये रम्भो विश्वतस्वरेण स्वामविश्वतो रक्षाराजन्नखायतः नरिश्ये त्वातः सखा जाते तापानिमिदा पृथिविजाय पर्वतेष्वहृतेष्वत्सु विश्वे सुमना अहेधन्राजन् सृतिह विजाविभाय अग्ने च मास वेदसा सुहो देवनदङ्गिरः युवमेतानि दिविलोचनान्यज्ञश्च सोमसक्रतो अधत्तम् युवकम् सिन्धोगम् रटिशस्तेरवद्यादग्नेशो मा वञ्चनेशो माम् सुमे सोऽहरिजतम् भवदम् दासुषेमयः अग्ने सोमः ब्रह्मणा वा विधाना वैर्यज्ञाय चक्रसुरलोकम् अग्ने सोमाहरिषप्तशिरस्य भेदको हरि यतम् मृषणा विशेषा सुशर्मास्वसामसा सत्तमाना रसंयोः स्वसन्तेः त्वा गणपतिनो हवामहे कविम् कपीलामुमश्रमस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्वधान शृण्वन्ो यति सेदसाधनम् स युजनेन सविशास जन्मना स पुत्रैर्वाजम् फलदेथना नृभिः देवानाङ्ग्यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् सुभासरक्वदागनेन बलगौरलोजफलिगौरवेण बृहस्पतिरुश्रयाहङ्गसोदः कनिक्रहत्वा वसति रुदाजत् मरुतो भवो दिवो जा वशम् अर्यमायादिभस्तु विष्मान् दातावसूनाम् गुरुहोदो अर्हण् सहस्राक्षिभिज्रबाहो अस्मासु दैवो द्रविणम् दधातो हेरमन् बहवो जय वराणाः पन्था नो राजन् दिव आचरन्ति न्नदे चुपदेशञ्चतुष्पदे बुद्ध्यादग्रमङ्गिरोनाम् सकृत्रिमाहम् सोमस्य तामदश्चकारा बुद्ध्यादग्रेण विज्रेणान्यतृणम् च पथिकन्दीर्घराधैः सोमस्य तालिन्द्रश्चकारा प्रयो जज्ञे विद्वागम् अस्य बन्धुम् युष्मानि देवो जनिमानिभक्ति ब्राह्म ब्रह्मणपूज्यभारमध्याः नेचादुच्चास्वधरा समुद्धादाष्टधनुषाभ्यर्ग्रबृहस्पदेवताय स्व्राज बुध्वाद्यो अग्लमभ्यर्जोजसा बृहस्पतिमापि वासंनग्बलम् विपरो ददरे दिगनेत्रदत्सुपोधिगाय